प्रातरग्निम् प्रातरिन्द्रकम् प्रातर हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् पूषणम् ब्रह्मणस्पतिम् प्रातः सोममुतरुद्रगुम् हुमेवा प्रातर्जितम् भगमुग्रगुम्भुवेव भजम् पुत्रवदितेर्जो विधर्ता आध्रश्चिद्यम् मन्यमानस्थुरश्चिद्राजाचिद्यम् भगम् भक्षीत्याह भगप्रणेदर्भगसत्यराधो भगे मान्धिजमुदवदन्नः भग प्रणोजनजगोभिरश्वैर्भग प्रणृभिर्नृवन्तः स्यामा उतेदानीम् भगवन्तः स्यामो त प्रपित्व उत मध्ये अनह्ना उतोदिता भगवन् सूर्यस्य भगएव एव भगवागम् अस्तु देवास्तेन भजम् भगवन्तः स्यामा तन्त्वा भग, भग सर्व इज्जोहविसनो भगपुर एता भवेह तमध्वराजोषसो न मन्तदधिप्रावेवशुच जे पदाज अर्वाचीनम् वसुभिदम् भगन् नो रथमिवाश्वाबाजि न आवहन्तु अश्वावतीर्गोपतीर्न उषासो वीरवती सदमुक्षन्तु भद्राः धृतम् दुहानाविश्वतः यो मा आग्ने भागिन कुञ्जन्तमथ भागञ्चिकीर्षति अभागमग्ने तम् कुरु मा मग्ने भागिनम् कुरु ॐ शान्तिः